Oh, oh. इत्रा olhos शलार्ट यपैनं शॉटफ उड़ा मम कान्म ठो मामश सORAट penso wa di auresh quan a n tones égda ुटन के शॉटनी जूटना फ Psychology o P Design Je i mean a onion inama i is not acquired McDonald recommend products जनगम् हिरण्यमदक्षिण्यमजगम् स्वाग्नि भाग्यसाम्यथितमिति पुनराधेयन्ते केवलमित्युवत्खलस इत्य्रवेद्य मद्दे भत्यमातथा धत्तरेण तस्मात् पोष्टाः पशव गुच्छन् देतं द्वष्टा धत्तते नष्टा तस्मात् काष्ठाः पशव गुच्छन्देतं मनुरा धत्ततेन मनुरार्ध तस्मां मानव्याः प्रजा गुच्छन्दैतं धाता धत्ततेन वेधाता तस्मात् संवत्सरं प्रजाः पशव प्रजा तेज एवं पुनराधेयस्यर्द्धिं वेदर्धत्येवयों बन्धुतां वेदबन्धुमान् भवति भागधेयं वाक्षमानः प्रजां पुरोपद्राव पुनरादधीतभागेयुमर्थ पुनर्वस्वो रानराधेयस्य नक्षत्रै यत् पुनर्वसोऽया देवैवतायामाधाय ब्रह्मवर्तजे भवय गर्भेराधयामत्वाय गर्भे राधधात्र्यभ्य एव्यो मरुधत्ते पञ्चकपालः पुरो भव जमञ्चमार्षवरशुद्ध्यदेवेन मम शुद्ध्याधत्ते वा एत यज्ञम् पशून भवति य अग्निमुद्वासयते पञ्चकपालः पशवो यज्ञमेव पशूनपरुन्धे वीरहा वानाय वाना अग्निमुद्वासयते न वा एतस्य ब्राह्मणार्ताय पुरान्नभक्षन् पञ्च यानुवाक्या भवन्ति पुरुषो देवानेव वैरन्यपदायाग्निं पुनराधत्ते शताक्षदा भवन्ति सदायुः शता पुरुषश्चेन्द्रियायश्चेन्द्रिये प्रतिष्ठति यद्वाग्निरायुरोध्य ते ज्याय भागदे यन्निकामयमानो यदा सर्वं भवति दैवास्य संवाये तस्य ध्येवासृजते निराह यथा पामं वसविशिकमिषदितादृगैवा प्रयाज न देव नै त्यजमानो वै पुरोणाशव एते आहुतीयदपि पुरोणा समेते आहुती जुहो यजमानमेवो भजः पशु परिगृह्णाय च त यजस्भृत सम्भार नित्या सम्भार्यमित्यसौलसंभृत्यादेव सम्भारा कर्तव्यं यज पुनरुसृष्ट्वा न द्वान् पुनराधेयस्य समर्ध्ये सप्त ते अग्ने समिधः सप्त जिह्वा इत्यग्नियत्रयत्रैवास्यन्येवै ने दावारेतदेवानांद्वासयते तस्य वरुण एवं नयाग्निवार्णमे तो मार्च ौ भागधेयेन प्रेणादिनार्दिमार्चधेयमानः भौमिर्भोम्नाभ्यौर्वरिणान्तरिक्षम् महित्वादेव्यदिमन्नादमन्नाभ्यायादधे आयङ्गः प्रस्थिर क्रमेत स नन्मातरम् पुनः नितरम् च प्रयन् स्वः कृपम् श्रद्धा मयिराजदिवादङ्गायशिश्रियेग्निभिः अस्य प्राणातपानत्यन्तश्चरविवचना यक्षन्मसु वःत्वा गृद्धः परवपमन्यनायदवर्चा सुकल्पमेन तव पुनः यामी यत्र पृथिवे मनुदध्वजे विदेसन माज्यों दर्जिविछन्न युम दधा गृहस्पस्कुम विश्व देवायता सप्तः सब सप्त सप्त साम प्रिया यजन्ति सप्तयो नेरा पुनस्माभितेन पुनरोर्जानिवर्तस्व पुनरग्रयुषायुषा पुनरन्नः पाहि विश्वतः सेह्यानिवर्तस्वा ज्ञेपिङ्गस्पधारया विश्वप् कश्च नै कस्तु लै कश्चयै महादित्या आद्यन्तुषानाभियन्त चेदस्य केदस्य महादित्या आद्यन्तुषानाभियन्त विभ स्वा अदि च देव भूमिर्भोम्नाद्योर्वहिणेत्याः शिवै न माधत्ते सर्पा वेदेर्यन्तो मन्य सर्गे नाद्रे यो मन्त्रमपश्यत्ततो वेदेमाददादि पुनर्नवमेवेन भजनम् कृत्वा धत्ते थो भूतमेव पृथिवे मन्नाद्यन्नपानमत्सैतम् मन्त्रमपश्यत् ततो वेतामन्ना व्यापानभद्यत् सर्पराज्ञा ऋग्यगायपत्यमादधाद्यस्यावरुध्या अथो अस्यामेलेन प्रतिष्ठितमाधत्ते यत्त्वा क्रुद्धः परो वयेः पन्मृत एव स्वेतः पुनश्च देवयामचेत्याः समिन्धेवेन यच्च मन्यपलो तस्येत्याः देवताभिरेवेण ्छिद्यमुद्वासयते बृहस्पतिव चर्चोपतिष्ठते ब्रह्म वै देवानां बृहस्पतिर्ब्रह्मणैव यज्ञकं सन्दधाति विच्छिन्नं यज्ञमं दधात्यै विश्वे देवायि समादयन्तामित्याह सन्तत्यैव यज्ञं सप्तते अग्ने समिधः सप्त स्तारेवान्धे पुनरोर्जातरयेजमानमेवर्जादय्या च भैरः परिगृह्णात्यादित्या वा अस्मान् लोकादमलोकमायन्ते अस्मिलाक व्यदृश्यन्त इमं लोकम् पुनरभ्य वेत् काग्नि लोकमाचनयः पराचीनम् पुनराधेयादग्निमादधिताञ्जुहुषाद्यामेवत्याद्धिमाध्वन्तामेवध्नो वयपयन्तो अध्वरम् मन्त्रम् वोचे माग्नये आरे अस्मे च शृण्वते अस्य प्रत्याममद्युतकम् शुक्रम् दुक्रे अक्रयः वयः सह अग्रे मोर्धा विवक्त्रपदः पृथिव्या अयम् अपागम् जन्मते अयमिह प्रथमो धायधातृभिष्ठमध्वनेष्वेद्यः यमप्रवानोऽगमो विदुजर्वने चरित्रम् विभुवम् विषे विषे उभावामिन्द्राग्ने आहुवध्या उभातस्य भावादयध्यैः उभादाताभिषागम् रगेनामुभावाजस्य साते भुवेव अयम् तेयोनिर्वियो जातो अलोचथा पञ्जानन्नग्नोहा नो वर्तया नयम् अग्नायोगुंसि अग्ना पवसः सुवार्यञ्चनः आरेपाधस्वदुच्छुना अग्नेपवः स्वस्व वा अस्मे वर्जः तोषगम् लयम् मयि अग्ने पावकरोचिषा मन्द्रया देवजिह्वया आदेवायलक्षियक्षिचः फनः पावकजीलिवाग्नेदेवाग्निगावः उपयज्ञकम् हविश्च नः अग्निश्चिच्रतरमस्य चर्वि प्रश्विचः कविः श्रीरोचताहुरः तवर्जोदे गय आयुर्ता अग्नेस्यायन्मे देहि वर्चोदा अग्ने वर्चो मे देहि तनोपा अग्नेऽस् तनुवम् मे पाक्यग्नेयन्मे तनुवा होनन्दन्महापणचित्रावस्ति च पारमशीयेमन्तश्चेमहि वयस्पन्द वयस्कृत यतस्पन्द यस्कृतभ्यम् अग्ने सपद्रदम्भम् वर्षिष्ठे अधिनाके स्वनेशौर्यस्य वर्चसा गथाः समृजेना विस्तुतेन सम्प्रियेणम्ना त्वमाग्नेशौर्यवर्चासितम् मामाविषावर्चथा प्रजया सृजा अहम् पश्यामि प्रजा अहमिडप्रजसो मानवी सर्वा भवन्तु नागृहे म्भस्ताम्भो व भक्षी यमहस्तमहो व भक्षी यतःस्तो वा भक्षीयोजस्थोर्जम्ब भक्षी यदेव देशमधमस्मिन् लोकेऽस्मिन् गोष्ठेस्मिन् क्षयेऽस्मिन् यो नाभियैव विश्वरूपे रामोर्जा विषागौ भक्ते नाराजस्पोषेण रहस्तपोषम् वः पुरुष्यासम्मयि उपरत्वाग्ने दोषावस्तर्धिया वयम् नमो भरन्दयेमसि राजन्द्रमध्वराणाम् गोपामृदस्य दीदिम् वर्धमानग्निस्वेदमे सरः पितेवसोनवे अग्ने सोपायनो भव रजस्वानस्वस्तये अग्ने त्वन्नो अन्तमः उतत्राता शिवो भव रोक्षः कन्तासोजिष्ठलीदिवः सुम्नाग नूनमे महे तेभ्यः वश्रवाः रक्षा नक्षद्यमत्तमारयिन्द्राः ओर्जामः पश्याम्योर्जामापश्यत रागस्पोषे नमः पश्यामि रामदः सहस्रवोषम् वः पुष्यासम् मयिघोराय श्रयन्ता तत्र पितृन्य भर्गो देवस्य धीमहि नः प्रचोदयात् सोमानग्वरणम् कुमहे ब्रह्मणस्पते कक्षीवम् दय्यौषिजम् कदाचनस्तरेलशिरेन्द्रसश्चितासुषे उपोपेन्नुमृहबन्धो गिरीन्नु देदानम् देवस्य परित्वाग्ने दे। परित्वाग्नेपुरम् वयम् विप्रगुम् धीमहे धीमहि दिवेरिवे दिवेरिवेत्तारम्भम् गुरावदः अग्ने गृहपदे सु गृहपदान्वया गृहपतिना भूयातकम् सुगृहमया त्वम् गृहपतिना भूयाः शतकम् किमास्तमासि समासा च पन्तदे ज्योतिष्पदे तामासि समासा चमुष्मे ज्योतिष्पदे यज्ञो वा यो सामोप प्रयन्तो अध्वरमित्याह स्तोममेवास्मै नक्तिपेत्याह प्रजा वै पशवौ वेमं लोकम् प्रजामेव पशोमिमं लोकमुपैत्यस्य प्रमनुर्जितमित्याह सुवर्गो वै लोकः प्रत्रसुवर्गमेव लोकम् समारोत्यज्ञोर्धा भोर्धानमेवैलकम् समानानाहङ्गरोत्य देव लोका देवत्यः मुख्यमेवेण्युभावामिन्द्राग्नी आहुमध्यायित्याहौ जो बलमेवा वरुन्धे यन्द्रे यो निजित्याह पशवो वेदपशो मेवावरुन्धे षड्भिरुपतिष्ठते षड्वारता प्रतिष्ठति षड्भिरुत्वराभिरुपतिष्ठते द्वादश संपद्यन्ते द्वादशमाधाः संवत्सरः संवत्सर एव पुरुषो या हि गो गीर्यहि संवत्सरस्य परस्ताग्निवानेव पुनर्नवमेवेनलङ्करात्येवोपतिष्ठते योग एव शेषोपतिष्ठते नव एव शेषोपतिष्ठते या ै सा पापी श्रेयसाहृत्य नमस्यरितादृशैव ददा युद्धा अग्ने चायन्मे देहेत्याहारुधा चैषवच्चौदा अग्ने दिवच्च मे देहेत्याहवच्चौदाख्यैशत नोपा अग्ने मे पाहेत्याहत नोपाच्यैषोऽग्नेयन्मे तनुवामो नन्दन्म आवृणेत्याहयन्मे न्मापोहय दिवा वेतदाह चित्रावधरा स्वस्ति च बालमशीयत्याहराद्वे चित्रावसुरभ्यश्चैवा वेतस्यै पुरा प्राष्टिमे वावरुन्ध इन्धानास्वाशि मात्याह शताय पुरशतेन्द्रियाय शेन्द्रिय प्रचेशावे सुराणागुंशतृहागस्त्रं समिष मादशादि वज्रमेव तच्छयमाना प्राय प्रहरतिष्ठत्या अथम्बक्गुंसन्तमग्ने सौर्यस्य वज्रजागसा वित्याहैतत्वमसीतमहं भूया समितिवावेतदाहत्वमग्ने सूर्यवच्चासेत्या आशिषमेवेतामाशा स्यामि प्रजा अहमित्याहयावन्दने ग्राम्यापस्तानेवावरुन्ध भस्ताम्भो व भक्षीयप्याहाम्भो चेतामहस्तमहो वा भक्षीय प्याहमहोचेतासहस्तसः वा भक्षेयत्यामसहख्येराहोजस्थोर्जं वा भक्षीय त्याहोजश्चेतारेव दीनमध्वमित्या वशभो वैरेव देव पशो देवात्मन् प्रमयते देवस्तेतोमापघातेत्याह ध्रुवा देवैदानपगाकृत इष्टघटित्वा अन्याः पशुजिन्यस्रगम् हृदासि विश्वरूपे रतिभत्समभिपशत्युपैवेयन् धत्ते पशुचितमेन कुरुते प्रमायेषोऽस्मान् लोकाच्यवदेयाहवनीय मुपतिष्ठतेऽस्मिन् देवलागे प्रतिष्ठत्यभवत्या देव निन्ध्वे गायत्रेभिरुपतिष्ठते तेजो वेगायत्री ते जगेवा त्वन्धत्ते झो यदे तन्त्रमन्वा हसन्तै गार्भवत्यं वाहद्विवादो वीरा प्रजायन्ते जग विद्वान् विवदाभिर्गालिभवत्यमुपतिष्ठत आस्य वीरो जागत त्याहासितमेवैतामासाेतसविहप्रे सोमानग्रस्मरणमित्याह सोमपीतमेवावन्धे गृण हि ब्रह्मणस्पथ इत्याह ब्रह्मवर्जतमेवावरुन्धे कदाचनस्तरे रथीत्याहनस्तरे गङ्गात्रिं वसति एवं विद्वाग्निमपतिष्ठते याग्नेशित्याह यथा देवेतच्छतशतं हे मन्तानि यदि भावेतदाः पुत्रस्य नाम गृह्णाय नादमेवेण करोदितामासि समाशासे तन्त ज्योतिष्प देवि देवो याद्यस्य पुत्रो जातस्य तेजस्ते वा स्य ब्रह्म वर्तते पुत्रो जावास्म सब दधा ैवने प्रजनयम् प्रजायन्ते यच्छायंवाच्छिञ्चलि प्रैव प्रागस्तनेन जनयति त्रेदस्यो वेदस्य त्वष्टा रूपाणि विघरो प्रजायत एकवेदैव्यस्तायोगरे भग्वीभिरुपतिष्ठते स्वरूपाणि विकरोति सत्रैव जायते स्वश्व भूयान् भवति य एवं विद्वाग्निमुपतिष्ठते हेवानामासेद्रात्रिरसुरान्तेऽसुरा यद्देवानाम् वित्तं वेद्यमासे तेन सहरात्रिं प्राविशन्ते देवाहीनामन्यत पश्यन्ना ज्ञेयी रात्रिणा ज्ञेयाः पशव शिवमेवाग्निग्रस्तवासरस्तुतः पशून् पुनर्गास्यतीतिमस्तु भवान् सेभ्यस्तुतो रात्रियाध्यापशोन् निराजक्रे देवाः पशो नियित्वा कामागम् अकुर्वदय एवं वा अस्मान् लोकादमल्लोकम् येत्सामल्लोकं गत्वा पुनरिमं लोकमभ्यत्स इमं लोकमागत्य मृत्यो नृत्युसंयल्लोकः सोमन्यस्तवामि समास्तुतस्तु वर्गम् लोकं गमयिष्यति सोऽ स येन स्तुतस्तु वर्गं लोकमगमयद्य एवं विद्वानग्निमुपतिष्ठते तु वर्गमेव लोकमे सर्वमाचरेत्यभिभायेषु रोहतिपतिष्ठते यथा खलु कामयते तथा करोति नग्नमुपतिष्ठते न प्रातश्च गृहेणक्रम् प्रजानि सृज्यन्ते सहस्रे जागश्च पापीजागश्चाधादे ज्योतिर्वा अग्निस्तमोदान्नग्नमुपतिष्ठते ज्योतिषैव तवत्युपस्थ्ये योऽग्ने Mabas Kheya त्याष्यायैत्याथैषयन् वैतमुपाक्षत्यसरो देवानहर्यायष्यते तस्मान् आहिताग्ने राशेत्यग्नि उपतिष्ठते तस्मादुपस्थेय प्रजापति पशोरथ जतते वृक्ताहो रात्र प्राविशन्दान् छन्दोभिरन्वविन्द्यच्छन्दाभिरुपतिष्ठते स्वमेव हिनदत्र जाम्यश्चेत्याहुर्यो हरहरुपतिष्ठत इति यो वाग्न्यम् प्रत्यङ्गोपतिष्ठते प्रत्ययेन मोषधयः पराङ्गविश्वम् प्रजया पशुभिरेति गवाचुर्यम् निवोपतिष्ठयनैरम् प्रत्ययिन विश्वम् प्रजया पशुभिरेति मम नाम प्रथमम् जातवेदः पिता माता जनधर्मप्रियदग्रेधि पुनरा प्रवाहन्नाम विधर्मण्यग्रे मम नाम तव च जातवेदोभाससे इव विवसाधो ये च नावः आयुषे त्वम् जीवसे वयम् यथाविधम् विपरितथा वहैव पुनस्ते नमोऽग्नये प्रतिनिध्याय नमो ना नाष्टाय नमः ना सम्राजे अशानघोराज्ञहद्वयामिष्मजत्सहम् जश्रेष्ठो गन्धर्वः हृत्वितारो देवास्पामाहृदयस्पर्दिवाचनाः तम् मामायुषाभङ्गौ भर्तेन सुविते माधाः अयमग् श्रेष्ठतमोऽयम् भगवत्तमोजगुण्डः स्वसा तमः स्तु सुर्यम् मनोज्यो चिषतामाज्यम् मृच्छन्न यज्ञकं समिबन् दधातु या निष्ठा वृषतो निम्बतश्च ताः सन्दधामि हविषा धृतेन पयः पयःस्पर्देरुधाम् पयः अपाम्पयतोपयस्तेन मामे न अग्ने ब्रतञ्चलिष्ट्यामि तन्मे राज्यताम् अग्निगुम् होतारमिहलगम् हो भवे देवानिहजामहे आयन्तु देवासु मनस्यमाना विजम् तु देवाहविषो मे अस्य हस्त्वायिन क्लित्वायिनः क्रियानि घर्मे कपालानिव जिन्वन्ति वेचसः न्य इन्द्रवायुमुञ्चता अभिन्नो धर्मो येरदानुकस्तदगन्पुनः यद्वाः परिजयश्च धर्मे यज्ञश्चय सञ्चरन्ति त्रयस्त्रियम् सत्तम् तो यविरत्रिरेमञ यज्ञः प्रभयादम् देपेधाः छिन्नम् प्रत्येत तथा अग्नि ृतावा ज्योतिपति धर्मीमहृहस्वया कवि उमय न जायता पृथिवीरि पृष्ठो दिवि पृष्ठो आग्ने पृथिव्या पृष्ठो विश्वावोषधीरादुनक्तम् जातो यदग्ने भुवनाव्यक्ष्य पशुम् न गोपालिर्यः परिध्वा वैश्वानरब्रह्मणेविन्द गातुम् योऽयम् पादः स्वस्तिभिस्तदानः त्वमाग्ने शोचि चासोऽशि चाठारोदसी अहणाजायमानः त्वम् देवागुमविधस्तेन वैश्वानलजादवेदो महित्वा अस्माकमग्ने मघवत्सुधारजानामि क्षत्रमवजलम् सुवीर्यम् वयम् देवमशतिनघुम् सहस्रिणम् वैश्वारलवाजमग्नेट मोदिभिः नाम वैश्वाशोस्मभ्यवसो राज पुरुस्तमम् वर्णपाशमस्पथवात वयमादित्यष्णोः सुरविना मुखाकरप्रणायोगोष्टे सूर्योतिषा ोर्धा मवो जिवस्व मो हवामहे आद न उदंत शर्म शशमी धाओस्प्य मियन्तः सुधीर हरिजर्मपुलक्ष्यत्वदिशर्म यच्छतु हरिजः पात्रबृंहतः महे मोदरम् स्वप्रदानात्रामजरन्त्येवम् सुशर्मा नमदिदेकम् सुप्रणीतिम् सुत्रामाणम् पृथिवेन्द्यामनेहसकम् सुशर्मा नमदिगम् सुप्रणीतिम् दैवे दैवेस्व यत्रामनागसमस्रवन्तिमारुहे मा स्पष्टयेमागम् सुराममारुहम् शता यत्रागम् शतस्भ्याम् अक्षद्राम् पारयिष्णम् ओम्